हरि ओम् श्री सीता रामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे योध्याखण्डे सप्तविंश सर्गः आत्मानमपि सहैव नेतुं सीताया श्रीरामं प्रति प्रार्थना एवमुक्ता तु वै देहि प्रियर्ह प्रियवदिनि प्रणय देव संक्रुद्ध भक्तारम् इदमब्रवीत् किम् इदं भाषसे राम वाक्यं लेखुत ध्रुवम् त्वयाय दपास्य मे श्रुत्वा न रवरोत्तम वीराणाम् राजपुत्राणाम् शस्त्रास्त्र विदुषा नृपे अनहम् अयशस्यञ्च न श्रोतव्यम् त्वेरितम् पिता माता भ्राता पुत्र तथा स्नुषाय तानि पुण्यानि संभाग्यमुपासते भक्तु भाग्यं तु नर्येक प्राप्नोति पुरुष भे अतश्चैवाहम् आदिष्ट वने वक्तव्यमित्यपि न ना पिता नात्मजो वात्मा न ना माता न सखी जनः य नारीणां पति एक गतिश्च यदि तं प्रस्थितो दुर्गम् वनम् अद्यैव राघव अग्रतस्ते गमिष्यामि गुर्जन्ति कुशकण्टकान् एषां दोषम् बहिष्कृत्य भुक्तशेषम् विबोधकम् नय माम् वीरपि विद्यते पासादाग्रे विमानैर्वा वह्याय स गतेन वा सर्वावस्था पादच्छाया विशिष्यते अनुशिष्टास्मि मात्राच च पित्रा नास्मि सम्पत्ति वक्तव्या वक्तव्यम् यथा मया अहं दुर्गं गमिष्यामि वनं पुरुष वर्जितम् नाना मृगगणाकीर्णम् शार्दूलगणसेवितं सुखं वने निवत्स्यामि यथैव भवने पितुः अचिन्तयन्ति त्रीन्लोकान् चिन्तयन्ति पतिव्रतम् शुश्रूषमाणा नित्यं नित्यम् नियता ब्रह्मचारिणि स्वरन्ते त्वया वीरे वनेषु मधुवन्धिषु संहीकर्तुं मनै शक्तो राम संपरिपालनम् अन्यस्यापि किं पुनर्मम मानदे सहं त्वया गमिष्यामि वनं फलभूलाशनानित्यं भविष्यामि न संशयः निवसन्ति त्वया सुर अग्रतये भोक्षे भुक्तवती त्वयि इच्छामि परतश्चैलान् पल्वलानी सुरंसि च द्रष्टुं सर्वतस्मिन् निर्भीतः त्वया नाथेन धीमतः हंसकारण्ड वाकिर्णा पद्मिनी साधु पुष्पिता इच्छेयं सुखिनि द्रष्टुम् त्वया वीरेण सङ्गता अभिषेकम् करिष्यामि सासु नित्यम् अनुवृत्ता सः त्वया विशालाक्ष ग्रन्थे परमनन्दिनी एवं वर्षसहस्राणि शतम् वापि त्वया सह व्यतिक्रमं न वेत्स्यामि सर्वोऽपि न मे च विना वासो भविता यदि राघवे त्वया विना न हं तदपि रोचये अहं गमिष्यामि वनं तु मृगायुतं वानर्वारणे वने निवस्यामि यथापि दुर्गृहे तव व्यपादोपगृह्य सम्मत अनन्यभावामनुरक्त चेतसं त्वयाभिक्तां मरणाय निश्चितां न यत् स्वं साधु कुरुषु नातो मया ते गुरुतः भविष्यति तथा दुर्वाणाम् अपि धर्मवत्सलां न च स्मसी तां द्रुवरो निशिश निशति वाचयनं बहुसन्निवर्तने वनेनि वा सत्य च लोकीतां प्रति इत्यार्थे श्रीमन् रामायणे वाल्मीकि अधिकारे अयोध्याकाण्डे सप्तविंश श्रीसीतारामचन्द्रापणमसु